अथाष्टषष्टितमः सर्गः अथाहमुत्तरम् देव्या पुनरुक्तः सम्भ्रमम् तव स्नेहान्नरव्याघ्रसौहार्दादनुमान्य वाच्यो रामो दाशरथिस्त्वया यथा माम् हत्वा रावणमाहवे यदि वा मन्यसे कस्मिंश्चित् संवृत्ते देशे विश्रान्तश्वो गमिष्यसि मम चाप्यल्पभाग्याय सान्निध्यात्तव वानरा अस्य शोकविपाकस्य मुहूर्तम् स्याद्विमोक्षणम् गते हि त्वयि विक्रान्ते पुनरागमनाय वै प्राणानामपि सन्देहो मम स्यान्नात्र संशयः तवा दर्शनजः शोको भूयो माम् दुखा दुःखाद् दुःखपराभूताम् दुर्गताम् दुःखभागिनीम् अयम् च वीरसन्देहस्तिष्ठतीव ममाग्रतः हा। सुमहाम् स्वत्सहायेषु हर्यर्क्षेषु हरीश्वरा कथम् नु खलु दुष्पारम् तरिष्यन्ति महोदधिम् तानि हर्यर्क्षसैन्यानि तौ वा त्रयाणामेव भूतानाम् सागरस्यास्य लङ्घने शक्ति स्याद्वैनते तदस्मिन् कार्यनिर्योगे वीरैवम् दुरतिक्रमे किम् पश्यसि समाधानम् ब्रूहि परिसाधने पर्याप्तः बलोदयः बलैः समग्रैर्यदि माम् हत्वा रावणमाहवे विजयी स्वपुरीम् रामो नयेत्तस्याद्यशस्करम् यथाहम् तस्य वीरस्य वनादुपधिना रक्षसा तद्भया देव राघवः बलैस्तु सङ्कुलाम् कृत्वा लङ्काम् परबलार्दनः माम् नयेद्यदि काकुत्स्थस्तत्तस्य भवेत् तद्यथा तस्य विक्रान्तमनुरूपम् महात्मनः भवत्याहवशूरस्य तथा त्वमुपपादय तदर्थोपहितम् वाक्यम् प्रश्मितम् हेतुसंहितम् निशम्याहम् ततः शेषम् वाक्यमुत्तरमब्रुवम् देवि हर्यर्क्षसैन्यानामीश्वरः तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः मनःसङ्कल्पसदृशा निदेशे हरयः स्थिताः येषाम् नोपरिणाधस्तान्नसज्जते गतिः न च मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः मर्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ अहम् तावधिह प्राप्तः किम् महाबलाः नहि हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः तदलम् परितापेन देविमन्युरपैतु एकोत ते एकोत्पातेन हरियूथपाः मम पृष्ठगतौ तौ च चन्द्रसूर्या विबोदितौ त्वत्सकाशम् महाभागे नृसिंहावागमिष्यतः हरिघ्नम् सिंह सङ्काशम् क्षिप्रम् द्रक्ष्यसि राघवम् लक्ष्मणम् च धनुष्पन्तम् लङ्का द्वारमुपागतम् नखदम् श्वायुधान् वीरान् सिंहशार्दूलविक्रमान् वानरान् वारणेन्द्राभान् क्षिप्रम् द्रक्ष्यसि सङ्गतान् शैलाम्बुदनिकाशानाम् लङ्कामलयसानुषु नर्दताम् कपिमुख्यानाम् न चिराच्छ्रोष्यसेऽस्वनम् निवृत्तवनवासम् च त्वया सार्धमरिन्दमम् अभिषिक्तमयोऽध्यायाम् क्षिप्रम् द्रक्ष्यसि राघवम् ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता उवाह शाति मम मैथिलात्मत वाशोक तथा पीड़िता इशे श्रीमद्राणे वाक आदि का्य सुंदरकांडे अष्ट सर्ग सुंदरकांडमूर्ण